नमो विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामीति नामिने नमस्ते सारस्वते देवे गौरवाणी प्रचारिणे निर्विशेषशून्यवादि पाश्चात्यदेशतारिणी जय श्रीकृष्णचैतन्या प्रभो नित्यानन्द श्री अद्वैतगदाधर श्रीवासदि गौरभक्तवृन्द हरे कृष्ण हरे कृष्ण कृष्णा कृष्ण हरे हरे Hare Rama Hare Rama Rama Rama Hare Hare